गणेशपुराणम् उपासनाखण्डम् अध्यायम् सिक्स्टि एय्ट् शूरसेन उवाच अन्यां कथयशक्रत्वं गणनाथ कथां पुनः कृदवीर्यस्य जनघ किं चकार ततः परम् इन्द्र उवाच श्रुत्वाख्यानं तु सङ्कष्टचतुर्थ्याम् राजसत्तमः दूर्वाख्यानं तु संश्रुत्वा चिन्ताविष्टो नृपो भवत अपुत्रस्य गतिर्नास्ति पुत्रो मे भविता कथं स्वप्ने ददर्शपितरं कार्तवीर्यस्तधा विधिः स गद् नो चतुस्तौ परस्परम् आलिलिङ्गतुरन्योन्यं प्रेमविह्वलचेतसा ततः पुत्रं करे धृत्वा पर्यंगे स्थापयत्पिता उवाच च त्वया पुत्रपुत्रार्थं बहुधाश्रमः प्रियदे क्रियते चाहमप्येकमुपायं वच्मितेनख मृत्युलोकादागतेन गथितं नारदेनमे मे तदैवाहं गतः पुत्रब्रह्मणः सदनं प्रति पप्रचाहं नमस्कृत्य ब्रह्माणं सर्ववेदिनम् कधम्मे मे भविता पुत्रः सन्तधिः कमलासन कथितं तेन सङ्कष्टचतुर्थीव्रतमुत्तमम् क उवाच अस्मिन्व्रते कृते पापक्षये च्यादे नृपोत्तम सन्ततिस्तव पुत्रस्य भविष्यदि न संशयः पितो वाच तदा तथैव लिखितं ब्रह्मणा कथितं यथा गृहाणपुस्तकं चैदद्यथावत् कुरुच व्रतं यावदब्धं समाप्येत तावत्सिद्धिविनायकः प्रसन्नो भविदा देवः सर्वसङ्कष्टहारकः तस्मिन् प्रसन्ने पुत्रस्ते भविता नात्र संशयः इत्युक्त्वार्हितस्तस्य पुत्रस्य जनको नृप जजागारततो राजा कृदवीर्यस्तु वैबली ददर्शपुस्तकं हस्ते स्वप्नार्थान् परिसस्मरे मुमोचाश्रूणि नेत्राभ्यां शोकानन्दपरिप्लुदसा पिदुर्वियोगाच्चोगार्थपुस्तकात्तेश्च हर्षिदः तावत्तस्या गमात्याः परिवाज्या ब्रुवन्नृपम् अमात्या ऊजुः जहिप्रमादं राज्यंस्त्वं सावधानमना भव त्यजशोकं वदास्मान् किं कारणं शोककारकम् अस्मानपि समाविष्टस्त्वच्छोकाच्छोक उत्कडः इन्द्र उवाच श्रुत्वा वाक्यममात्यानां कार्तवीर्यो जगादतान् मया स्वप्ने पिता दृष्टस्तेन मे विह्वलं मनः पुस्तकं चैव सङ्कष्टचतुर्थीव्रतबोधकं दत्तं मम करे तेन पिदधे तत्क्षणाच्च तद्वियोगेन शोचामि गदार्थं निर्धनो यथा उक्तम् च तेन मे वाक्यम् कुर्विदं व्रतम् प्रबुद्धोहं यदा मात्या हस्ते दृष्टम् च पुस्तकम् आश्चर्यम् हर्षशोकैश्चाप्यश्रुमुञ्चामि नान्यथा अमात्या ऊचुः यः पिताः सर्वलोकानां मनुष्यो रगरक्षसा स एव पितृरूपेण परितुष्टो गजानन उपायमवदत्ते सन्तत्यैराजसत्तम अन्यथा पुस्तकं क्वत्यं स्वप्नार्थक्व प्रमा विनाप्रसादं स्वप्नोपि स्वप्नोऽपि विपर्ययमुदाहृतः इन्द्र उवाच इत्यमात्यवचः श्रुत्वा सावधानमनानृपः आहूयपरिपप्रच्छपण्डितान् सुहृदोऽपि च वदन्तु प्रसादात्तस्य भो द्विजाः त ऊजुः पुस्तकम् दृष्ट्वा तस्यार्थम् सर्वसंसदि द्विजा ऊजुः ब्रह्मणकृतवीर्यस्य संवादोऽत्र महान्नृप चतुर्थी सर्वसङ्कष्ट नाशिन्यत्र निरूपिता चन्द्रोदये गणेशस्य पूजा प्रोक्ता सविष्टरा अङ्गारकचतुर्ध्यास्तु महिमा बहुशोऽपि च तिथिदेवविधूनां च अर्घ्यदानं समन्तकम् एकविंशतिविप्राणां भोजनं चैव पूजनं नानादानानि तेभ्यश्च देयानीति निरूपितं दुर्वासमर्पणं स्वेददूर्वाफलं पृथक् एदव्रतमहाभागभाग्यात्प्राप्तं त्वया नख न दृष्टम् लोके भविष्यत्युपकारकम् श्रवणात् स्मरणाच्चापि सङ्कष्टहरणम् नृणाम् इन्द्र उवाच श्रुत्वा तत्पण्डितमुखाद्राजा सर्वजनश्चः आश्चर्यानन्दसंयुक्तः पुपूजे सद्विजोत्तमान् वस्त्रालङ्काररत्नानि धनं धान्यं ददौ बहु अत्रिमाहूयरा चापि गुरुं निजगुलस्य च सुमुहूर्ते तदो गृह्णात् परिपूज्य यथा विधि देवं विनायकं तं च विद्याते काक्षराम् शुभाम् जापमन्त्रं तमनन्यभक्त्या ध्यायन् गणेशम् विजितेन्द्रियः स व्रतं च चक्रे गणनाथतुष्ट्यै सुताप्तये सङ्गणनाशनं तद् इति श्रीगणेशपुराणे उपासनाखण्डे व्रतनिरूपणम् नामाष्टषष्टितमोऽध्यायः ओ